नारदपुराणं पूर्वार्धं अध्यायं हण्ड्रेड् एण्ड् वाचा ब्रह्मोवाच शृणुवत् स प्रवक्ष्यामि वाराहं वै पुराणकं भागद्वययुतं षश्वद्विष्णुमाहात्म्यसूचकं मानवस्य तु कल्पस्य प्रसङ्गं मत्कृतं पुरा निबबन्धपुराणेऽस्मिन् चतुर्विंशसहस्रके व्यासोगिविदुषां श्रेष्ठ साक्षा नारायणो भुवि तत्रादौ शुभ संवाद स्मृदो भूमि वराहयोः अधाधिकृतवृत्तान्ते रम्भस्य चरितं तदः दुर्जयस्य च तत्पश्चाच्छ्राब्धकल्प उदीरितः महातपस आख्यानं गौर्युत्पत्तिस्त ततः परा विनायकस्य नागानां सेनान्यादित्ययोरविगणानां च तथा देव्या धनदस्य वृषस्य च आख्यानं सत्यतपसो व्रताख्यानसमन्वितम् आगस्त्यगीता तत्पश्चाद्गीता प्रकीर्तिता महिषासुरविध्वं समाहात्म्यं च त्रिचक्रिजम् पर्वाध्यायस्ततश्वेदोपाख्यानं गोप्रदानिकम् इत्यादि कृतवृत्तान्तं प्रथमे दर्शितं मया भगवद्धर्मगे पश्चाद्वदतीर्थकथानगम् द्वात्रिंशदपराधानां प्रायचित्तं शरीरगम् तीर्थानां चापि सर्वेषाम् आहात्म्यम् पृथगीरिदम् मधुराय विशेषेण श्राद्धादीनां विधिष्ठदः वर्णनं यमलोकस्य ऋषिपुत्रप्रसङ्गदः विपाकः चैव विष्णुव्रतनिरूपणम् गोकर्णस्य च माहात्म्यं कीर्तितं पापनाशनम् इत्येवं पूर्वभागोऽयं पुराणस्य निरूपितः उत्तरे प्रविभागे तु पुलस्य कुरुराजयोः संवादे सर्वतीर्थानाम् आहात्म्यं विस्तरात्पृथक् अशेषधर्माश्चाख्याताः पौष्करं पुण्यपर्व च प्रोक्तं पापविनाशनम् पठतां तृणोतां चैव भगवद्भक्तिवर्धनं काञ्चनं गरुडकृत्वा तिलधेनु समन्वितं लिखित्वै तच्च दद्या चैत्र्यां विप्राय भक्तिदः स लभेद्वैष्णवं धाम देवर्षिगणवन्दितः यो शृण्वो शृणोत्यपि पठत्यपि सोऽपिपत्तिं लभ्यद्विष्णौ संसारोच्छेदकारिणीम् इति श्रीबृहनरदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे वाराहपुराणानुक्रमणि वर्णनं नाम त्र्युत्तरशततमोऽध्यायः ओम्